ॐ नमो भगवते वासुदेवाय श्रीमद्भागवत्महापुराणं नव महिस्कन्धः अथ प्रथमोऽध्यायः वैवस्वत्मनुके पुत्र राजा न की कथा राजुवाच मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे वीण्याणि हरे हरेस्तत्र कृतानि च योऽसौ सत्यव्रतो नाम राजर्षि द्रवणेश्वरः ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवयां स वैव वस्वतः पुत्रो मनुरासीदिति श्रुतं वृत्तश्च सुताश्चोक्ता इक्ष्वाकुप्रमुखा नृपाः तेषां वशं पृथग्ब्रह्मण् वंश्यानुचरितानि च कृतियस्वमहाभागनित्यं शुश्रूषताम्भिनः ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्य ये तेषां न पुण्यकीर्तीनां सर्वेषां वद् विक्रमान् एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनां हृष्टप्रोवाच भगवान् सुखपरमधर्मवीं श्रीशुकुवाच श्रूयतां मानवो वंशप्राचुर्येण परं तपं न वितं विस्तरतो वक्तुं वर्षश्रतैरपि परावरेषां भूतानाम् आत्माय पुरुषपरं स एवासीदिदं विश्वं कल्पान्तेऽन्य किञ्चन तस्य नाभि सम्भवन् पद्मकोशो हिरण्मयः तस्मिन् यज्ञे महाराज स्वयं भूश्चतुरानः मतिं मरितिर्मनस्तस्य यज्ञे तस्यापि कश्यपः दाक्षायण्यां ततोदित्यां विवस्वानभुवत्सुतः ततो, विवस्वान ततो मनु श्राद्धदेव संज्ञायामास भारतं श्रद्धायां जनयामास दशपुत्रान् स आत्मान् इक्ष्वाकू नरिष्यन्तं पृसद्गन्धं च न भगं च कविं विभूम् अप्रजस्य मनोपूर्वं वसिष्ठो भगवान् किल मित्रावरुणयोरिष्टं प्रजार्थम् अकरोत् प्रभु तत्र श्रद्धा मनोपत्नी होतारं समयाचत ध्वत्र्यर्थमुपागम्य प्रणिपत्य प्रयोव्रताम् प्रेषितोऽध्वर्युणाहूता ध्यायन्तसमाहितः अविसीव्यचरत्तेन वषत्कारं गुणद्विजः होतुस्तद्व्यविचारेण कल्नीलानांशा भवन् तां विलोक्य मनुब्राहान् अतिष्ठम् अतिशिष्टमना गुरुं भगवन् किमिदं जातं कर्मवो ब्रह्मवादिनाम् विपर्ययं बहु कष्टं नैवं स्याद्ब्रह्म विक्रियां योऽयं मन्त्रविदो युक्ता दग्ध किल्विषाः कुत सङ्कल्पभै सम्यम् अनृतं विबुधेष्वम् तन्निशम्या वचस्तस्य भगवान् प्रपितामह। प्रपितामहोतुर्व्यतिक्रमं ज्ञात्वा बभासेरभिनन्दनम् एतत्सङ्कल्पवैसम्यं भोतुस्ते व्यभिचारतः तथापि साधयश्चेते सुप्रजास्त्वं सती जशाम् एवं व्यवसितो राजन् भगवान् स महायशाः अस्तो इलायाम् विलायां तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः ददा विलाभवत्तेन सिद्धिं न पुरुषैषभ स एकदा महाराजविचरन्मृगयां वने मृतः कतिपयामाद्यै अस्मारुह्य सैन्धवं प्रगृह्यरुचिरं चापं संसारश्च परमाद्भुतान् दंसितोभीरो जगामदिसमुत्तराम् स कुमारो वनं मेरो रसस्तान् प्रविवेशः यस्त्रास्ते भगवान् सर्वोरममाळशहोमयां तस्मिन् प्रविष्टये वासो दुम्न्युं दुःसुजुम् न परवीरः अपश्यश्रियमात्मानम् अश्वं च बलवां नृपा तथा तदनुगा सर्वे आत्मलिङ्गविपर्ययम् दृष्ट्वा विमनसो भूवन् परस्परं राजवाच कथमेवं गुणो देशकेन वा भगवन्कृतः प्रत्नमेनं समाचक्ष्वपरं कौतूहलम् हिनः शेषुकुवाच एकदा गिरसं द्रष्टुं ऋषयस्तत्र शुभ्रताः दिसो वितिमिराभासा कुर्वन्तसोपागमन् तान्विलोक्याम्बिका देवीं पीडिताम्भृतं भर्तूरङ्कात् समुत्थाय लेविमाशुतपर्यधात् ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः निवित्ता प्रयस्तस्मान्नरायणाश्रमं तदिदं भगवानाः प्रियाय प्रियकाम्याम् स्थानं य प्रवीशेदन् स वै योषि भवेदिति वनं तद्वै पुरुषा वर्जयन्ती सा चानुचरसंयुक्ता विचारवनाद्वनम् अथ तामाश्रमाभ्यासे चरन्तीं प्रमदोत्तमां शभिपरिमितां वीक्ष चकमे भगवान् बुध सा पितं चकमे शुभ्रूसोमराजसुतं पतिम् स तस्यां जनयामास पुरुरवसमात्मजम् एवं श्रीत्वम् अनुप्राप्त सुधुं न्योमानवो नृपः संस्मारश्वकुलाचार्यं वसिष्ठमिति शुश्रुमा स तस्य तां दशां दृष्ट्वा कृपयाभिषुपीडितः सद्यं नस्यासयन् पुं त्वम् उपां धावत शङ्करम् तुष्टस्तस्मै स भगवान् विषये प्रियमावहं स्वां च वाचमृतां कुर्वन्निजमाह विशाम्पते मासं पुमानस भविता मासं श्री तव गोत्रजः इत्थं व्यवस्थया कामं सृद्धुं नो वतु मेदिनीम् आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थयाम् पालयामास जगितिं नाभ्यनन्दन स्म तं प्रजाः तस्योत्कलो गयो राजन् विमलश्च सुताश्रयः दक्षिणापथ राजानो बभूरुर्धर्मवश्चलाः ततः परिणते काले प्रतिष्ठान प्रभो प्रभु। गां पुत्राय गतो वनम् ते श्रीमद्भागुवते महापुराणे पारहसा शयितायाँ नमस्क विलोप्या प्रथम